अथ षष्ठः सर्गः तस्याम् पुर्यामयोध्यायाम् वेदवित् सर्वसङ्ग्रहः दीर्घदर्शी महातेजाः पौरजानपदप्रियः इक्ष्वाकूणामतिरथो यज्वाधर्मपरो वशी महर्षिकल्पो राजर्षिः स्त्रिषु लोकेषु विश्रुतः बलवान् यहतामित्रो मित्रवान् विजितेन्द्रियः धनैश्च सञ्चयैश्चान्यैश्चक्रवै श्रवणोपमः यथा मनोर्महा तेजालोकस्य परिरक्षिता तथा दशरथो राजालोकस्य परिरक्षिता तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता पालिता सा पुरी श्रेष्ठा इन्द्रेणैवामरावती तस्मिन्पुरवरे हृष्टा धर्मात्मानो बहु श्रुताः नास्तुष्टाधन स्वस्वरलुब्ध सत्यवादि नापसन्नी चय कदा तस्पुर कुटुबी ह्य सिद्धाथो गवा शधन ध्यवान्मी वानको वाशंस पुष क्वचि द्रष्टुश शक्यमध्या विद्वान्न च नास्तिक सर्वे धर्मशीला सु संयता मुदिता शील वृत्ता महर्षय इवाम ना कुंडली ना मुकुटीना स्रग्वीना ना नामत्तांगो न ना सुगंध विद्यार नामोजी नादाताप्यन ना निष्कृक नो ना वाप्य ना नाप्यनात्मान नानाहिताग्निर्नायज्वानक्षुद्रो वा नतस्करः कश्चिदासीदयोऽध्यायान्न चावृत्तो न, न सङ्करः स्वकर्मनिरता नित्यम् ब्राह्मणा विजितेन्द्रियाः दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे नास्तिको नानृतीवापि न कश्चिदबहुः श्रुतः नासूयको न चाशक्तो ना, ना, ना, ना, ना, ना विद्यते क्वचित् ना षडङ्गमिदत्रास्ति नाव्रतो न ना सहस्रदः नदीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन कश्चिन्नरो वा नारीवा नाश्रीमान्नाप्यरूपवान् द्रष्टुम् शक्यमयोध्यायाम् नापि राजन्यभक्तिमान् वर्णेष्वग्र्यचतुर्थेषु दीर्घायुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः सहिताः पुत्रपौत्रैश्च नित्यम् स्त्रीभिः पुरोत्तमे क्षत्रम् ब्रह्ममुखम् चासीद्वैश्याः क्षत्रमनुव्रताः शूद्रा स्वकर्म निरता स्त्रीवर्णानुपचारिणः सा तेनेक्ष्वाकुनाथेन यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता योधानामग्निकल्पानाम् पेशलानामवर्षिणा सम्पूर्णाकृतविद्यानाम् गुहाकेसरिणामिव काम्बोजविषये जातैर्बाल्लीकैश्च का हयोत्तमैः वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि मयान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ऐरावतकुलीनैश्च महापद्मकुलैस्तथा अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्र मृगैस्तथा भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी नित्यमत्तैः सदा पूर्णा सायोजने द्वे च भूयः सत्यनामा प्रकाशते यस्या दशरथो राजा वसन् जगदपालयत् ताम् पुरीम् समहातेजा राजा दशरथो महान् शशासशमिता मित्रो नक्षत्राणीव चन्द्रमाः ताम् सत्यनामान् दृढतोरणार्गलाम् गृहैर्विचित्रैरपशोभिताम् शिवा पुरीमयोध्यामृसहस्रसङ्कुलां शशास वै इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठः